ओके तर्हि आरभामि इति मन्ये सर्वेभ्यः नमस्कारः इदानीम् अस्माकं पाकः नो वर्तते इदानीं किञ्चित् दृष्ट्वा वसुतः यत् खरपत्रम् अस्माभिः कदाचित् नाम प्राक्तने एव युगे यत् आरब्धं तदेव पतिष्य पत् तदेव पथ्यते तत्र मध्ये बहवः विषयाः आगता गताः इदानीं ते सर्वे यथामति अस्माभिः अपि परिशीलिताः इति मन्ये वस्तुतः तत्र किं किं कर्तव्यम् इति मम प्रश्नः वस्तुतः गते वर्गे अस्माभिः इदानीं तत्र यत् मध्ये कदाचित् नाम मध्ये अस्मिन् करपत्रे तत्र व्याप्यं व्यापकञ्च इति तदा द्वयोः पदार्थयोः तत्र लक्षणम् इव आगतं तदभाववतवृच्चित्वम् इति व्याप्यश्च अपि च किं तत्समानाधिकरण अचन्त तत्समानाधिकरण अचन्त भावप्रतियोगी प्रतियोगित्वम् इति तत्र व्यापकस्य लक्षणं दृष्टम् नाम तस्मिन् विषये अस्माभिः तत्र किम् द्वयं वा त्रयं वा द्वयम् इति मन्ये तत्र नीतम् इदानीम् अनन्तरम् वस्तुतः तत्रापि नाम तत्र तस्मिन् एव तयोः द्वयोः लक्षणयोः प्रयोगः इव क्रियते इदानीं व्यापकस्य ईदृशं लक्षणम् इति कृत्वा तत्र भवतु एकम् उदाहरणं तत्र नाम गन्धः पृथिवीत्वम् निश्चितयोः द्वयोः वस्तुतः भवतु इदानीं गते वर्गे यद्यपि एषः विषयः तत्र सम्पूर्णं तत्र न तथापि तत्र च जामः इति मन्ये यतोहि एतत् इदानीम् अत्यन्तम् बहुकालम् अस्माभिः एतत् लक्षणद्वयम् इदानीं परिशीलितम् सामान्यतया तु वस्तुतः स्तु एतत् सर्वम् अत्यन्तं सविस्तरम् अपि च तत्र किं लागुरूपेण तत्र अत्यन्तम् सुगाम्यरूपेण तत्र कदाचित् अग्रे आगच्छति अस्मिन् एव पुस्तके तत्र यथा विषये यदा एषः विषयः आगच्छति तदा पुनरेकवारं भवतु यदस्माभिः इदानीं दृष्टं यद् अस्माभिः इदानीमेव अवगतं तत् समीचीनम् एव परन्तु भवतु इदानीं तत् सम्पूर्णतया तस्य अवगमनम् इदानीम् अस्मिन् प्रसङ्गे वस्तुतः नैव अपेक्षितं वर्तते भवतु ओके तथापि सुतः इदानीं किमार्थम् एतत् सर्वं यतो हि तत्र अवचेद्य अवच्छेदकभावः अस्माभिः परिशीलितः अवचेद्य अवच्छेदकभावे स सचि तत्र उक्तं करपत्रे यत् तत्र कश्चन विशिष्टः अपि विशिष्टः वर्तते कश्चन सम्बन्धः तयोः मध्ये अवच्छेद्य अवच्छेदकस्य च तस्य नाम आकारः तत्र नाम इति न तथा न वक्तव्यं परन्तु तादृशस्य सम्बन्धस्य आकारः वर्तते व्यापकत्वे सचि व्याप्यत्वम् अथवा व्याप्यत्वे सचि व्यापकत्वं तु उभयमेव सङ्गच्छते इदानीं तत्कृते एव तदवगमनार्थम् एव तत्र व्यापकस्य व्याप्यस्य लक्षणानि दत्तानि इदानीं तदार्थ एव सः पृथिवी पृथिवीत्वं गन्धवत्वम् इति एतादृशम् उदाहरणं स्वीकरोति यतोहि तत्रापि व्याप्यत्वे सचि व्यापकत्वम् अथवा व्यापकत्वे सचि व्याप्यत्वम् एतत् एव सङ्गच्छते अतः एव इदानीम् एतत् उदाहरणम् उदा उदाहरणीकृत्य तत्र एव प्रयोगं करोति इदानीं पृथिवीत्वं व्यापकं भवतु तर्हि तत्र तस्य लक्षणं कथं सङ्गच्छति गन्धवत्वं तथा व्याप्यं तत्र लक्षणं कथं सङ्गच्छति अथवा विपरीतरूपेण एतदपि वक्तुं शक्नुमः नाम पृथिवीत्वं कदाचित् व्याप्यम् अपि स्यात् किम् अस्माकं गन्धवत्वं तु व्यापकं भवतु यतो हि भवतु अत एव तयोः एषः व्याप्यते सती व्या व्याप्य व्याप्यते सति व्यापकत्वम् अथवा व्यापकत्वे सती व्याप्यताम् एषः विशिष्टः तत्र सम्बन्धः सङ्गच्छते सोऽयं सम्बन्धः अति अवच्छेद्य अवच्छेदकयोः सङ्गच्छते इति सः वदति ओके इदानीम् अग्रे गच्छामः नाम अग्रे गच्छामः तु परिच्छेदः परिशिष्टः वर्तते तस्मिन् पुनारकवारं यत् तत्र महत्त्वपूर्णः यत्किमपि महत्त्वपूर्णं यत्किमपि उक्तं तस्मिन् करपत्रे तत् पुनरकवारं तत्र किं स सार उच्यते अत एव तदेव पश्यामः इदानीं करपत्रं पुनरकवारं मया छात् मध्ये तत्र तस्मिन् करपत्रे अन्ते नाम चन्ताधोभागे वर्तते एकः एकः अन्त्यः परिच्छेदः तस्य शीर्षकमपि वर्तते रूपस्य अव्याप्यवृत्तित्वम् उत व्याप्यवृत्तित्वम् स एव अस्माकं विषयः आसीत् रूपम् इति इदानीं परिशील्यमा तत्र पुस्तके विद्याधरीपूस्तके इदानीं परिशील्यमानं परिशील्यमानः गुणः तस्य इदानीं प्रचीनयायिकैः अव्याप्यवृचित्वं न न क्षम्यं प्रचीनैः व्याप्यवृचित्वं स्वीक्रियते अत एव व्याप्यवृचित्वं स्वीकृत्य तैः अपि इति कश्चन विशिष्टम् एकं पृथाग्भूतं रूपं स्वीक्रियते नव्यैः तु नवीनैस्तु तथा नास्ति नाम व्याप्यवृचित्वं तत् तैः न स्वीक्रियते अव्याप्यवृचित्वम् एव अत एव तेषां कृते तत्र चित्रम् इति एकम् एकीभूतम् एकं तत्र एकं पृथाग्भूतम् एकं रूपं नास्ति यतोहि तैः उच्यते भवतु यदि कस्यचित् नाम कस्यचित् पदार्थस्य विचित्रं रूपं वर्तते तर्हि तथा एव स्वीकुर्मः तत्र एकस्मिन् एकस्मिन् देशे रक्तरूपं भवतु अन्यस्मिन् अन्यस्मिन् देशे नीलरूपं भवतु यतोहि इति तादृशः गुणः अस्ति यः अव्याप्यवृत्तिः अव्याप्यवृत्तिः गुणः वर्तते नाम नाम स सर्व सम्पूर्णं पदार्थं न व्याप्नोति केवलं पदार्थ एकदेशं व्यप्तुं व्याप्नोति एव पदार्थ एकदेशे एव तिष्ठति यथा अस्माकं कापि कापिः वृक्ष एकदेशे अस्ति न तु सम्पूर्णे वृक्षे ओके इदानीं पठामः रूपस्य अव्याप्यवृत्तित्वम् उत व्याप्यवृत्तित्वं अन्तिमः परिच्छेदः वर्तते अन्तिमः प्रक अन्तिमं प्रकारणं वर्तते अन्ते आम् ओके तर्हि किम् आल्फाबेट्स्थवा का का, का तत्र न तु अपारं भगिनी एवम् आरम्भं करोतु कृपया यदि करपात्रं प्रा, प्राप्तं तर्हि कृपया कर आरम्भं करोतु हा भगिनी पुनर् तथा अस्ति यथा कदाचित् भवत्या एषः तत्र इण्टर्नेट् सम्बन्धि दोषः वा उत्पद्यते यद्यपि भगिनी म्यूट् मध्ये नास्ति तथापि किमपि अस्माभिः न श्रूयते किमपि न श्रूयते न श्रूयते भगिनी न श्रूयते परन्तु भगिनी म्यूट् मध्ये नास्ति तत् पश्यामि आम, नमस्ते महोदय श्रूयते नमस्ते इदानीं श्रूयते पठामि वा कृपया पठामि वा महोदय कृपया भगिनि रूपस्य अव्याप्यवृत्तित्वम् उत व्याप्यवृत्तित्वम् एकस्मिन् मते रूपं व्याप्यवृत्ति पुस्तके एकत्वम् इति सङ्ख्या इव अपरस्मिन् मते रूपम् अव्याप्यवृत्ति वृक्षे कपिसंयोगः इव येषां मते रूपम् व्याप्यवृत्ति तैः चित्ररूपम् इति नूतनं सप्तमं रूपं स्वीक्रियते येषां मते रूपम् अव्याप्यवृत्ति तैः एकस्मिन् द्रव्ये श्वेतरूपं रक्तरूपं च बहुनी रूपाणि स्वीकर्तुं शक्यन्ते mm -hmm. एतस्मिन् परिच्छेदे मतद्वयस्य विवरणं कृ कृतम् एकस्मिन् मते तु रूपं व्याप्रवृत्ति इति स्वीकृतवन्तः अपरस्मिन् मते रूपम् अव्याप्यवृत्ति तस्मिन् मते रूपं व्याप्यवृत्तिः अस्ति तस्मिन् तत्र तत्र रूपं व्याप्यवृत्तिः तैः चित्ररूपमिति सप् नूतनं सप्तमं रूपं स्वीक्रियते चित्ररूप सप्तमं रूपं ते स्वीकृतवन्तः अपरस्मिन् मते यत्र अव्याप्यवृत्तिः अस्ति तत्र बहूनि रूपाणि स्वीकृतवन्तः एकस्मिन् द्रव्ये एव श्वेतरूपं रक्तरूपं भिन्नभिन्नरूपाणि एकस्मिन् द्रव्ये एव आगन्तुम् शक्यते परन्तु व्याप्तव्यक्ति कुत्र अस्ति तत्र केवलं सप्तमं रूपम् आगतं भिन्नभिन्नरूपं तत् स्वीकर्तुं न शक्नुवन्ति आं न समीचीनं सम्यक् तर्हि अग्रे रूपं समवायसम्बन्धेन पटे किन्तु कपिः संयोगसम्बन्धेन वृक्षे अतः रूपम् अव्याप्य वृत्तित्वसाधनार्थं यः दृष्टान्तः दीयते तस्मिन् प्रकृतिदृष्टान्तयोः साम्यमस्ति किम् उत्तरं अत्र कपेहे उदाहरणे संयोगरूपगुणः स्वीकृतः न तु नतु न तु कपिः अत्र कपेः उदाहरणे संयोगरूपगुणः स्वीकृतः न तु संयोगरूपगुणश्च समवायसम्बन्धेन वृक्षे अग्रदेश अवच्छेदेन च मूलदेश कपयोग नूल देशे अन्ग् वायु इत्यादि कपयोग निकाल तमवायसबेदी संयोग अचिदि नवती अकगत परंतु hmm. प्रयत्न कॉमी ते उत्तरं दत्तवन्तः प्रश्नमस्ति समवायसम्बन्धः एकस्मिन् द्रव्ये एकस्मिन् स्थले अस्ति संयोगसम्बन्धः अन्यस्मिन् स्थले अस्ति तर्हि यस्मिन् दृष्टान्ते कथं प्रकृति अव्याप्यवृत्तिसाधारणार्थं कथं कथं साम्यम् इति तर्हि उत्तरं तर्हि इदानीं तर्हि भगिनी इदानीं तत्र अवगमनार्थं स्पष्टीकरणार्थम् इदानीं भगिनी उक्तवती एकस्मिन् पक्षे समवायसम्बन्धः अन्यस्मिन् तु संयोगसम्बन्धः तत्र कौ इमौ पक्षौ कुत्र संयोगसम्बन्धः कुत्र पटे अस्ति समवायसम्बन्धः वृक्षे अस्ति संयोगसम्बन्धः भवतु सम्यक् परन्तु पटे किं समवायसम्बन्धेन वर्तते रूपं यतोहि इदानीमस्ति वा यत् प्राकृतं तत् रूपपरिशीलनम् इदानीं रूपं वर्तते पटे वा कस्मिन्नपि द्रव्ये रूपं वर्तते समवायसम्बन्धेन ओके परन्तु अन्यः पशः कः यः पक्षः अस्ति समवायसम्बन्धपक्षः सम्यक् रूपः रूपः द्रव्ये यसम्बन्धेन इदानीम् अन्यत् किं तत्र क्षम्यतां संयोगसम्बन्धः तत्र संयोगसम्बन्ध संयोगसम्बन्धसम्बन्धः सम्बन्धस्य का कथा कस्मात् आगतः एतत् संयोगसम्बन्धः वृक्षे तस्मिन् मते तादृशसम्बन्धे नास्ति परन्तु कपिः द्रव्यः नास्ति केवलम् उदाहरणार्थं स्वीकृतः तदेव तत् स एव तदेव तदेव स प्रश्नः इदानीं रूपं द्रव्ये समवायसम्बन्धेन वर्तते ओके कापि तु वृक्षे संयोगसम्बन्धेन वर्तते इदानीं भवान् वदति यत् द्रव्ये तथा वर्तते यथा कापि वृक्षे तत्तु असमञ्जसं वसतः तद् इदानीम् उत्तरं वदति यत् न तथा नास्ति परन्तु सर्वप्रथमम् एतत् इदानीं प्रश्नः तु अवगन्तव्यः तत्र कुत्र समस्या भगिनी अवगच्छति वा तर्हि तत्र केवलं तत्र वैषम्यं किम् इति अवगन्तव्यम् इदानीं यदि उदाहरणं ददामि यत् कस्यापि कस्यापि किं किं वदामि द्वौ अधिकारः द्वयमस्ति आदेयमपि द्वयमस्ति परन्तु भिन्नभिन्नसम्बन्धेन ते अधिकारे तिष्ठन्ति आम् आम् आम् तदेव सम्यक् तदेव पर यतोहि न्यायशास्त्रे इदानीं वस्तुतः सम्बन्धः अत्यन्तं महत्वपूर्णः वर्तते तदा सर्वत्र न केवलं भवतु तत्र देवदत्तः पते अस्ति वस्तुतः येन प्रकारेण देवदत्तः पते अस्ति तेन प्रकारेण रूपं तु द्रव्ये नास्ति यतोहि भवतु देवदत्तः कदाचित् पते भवतु कदाचित् मा नाम कदाचित् न तस्य सर्वस्य यदि इदानीं तत् कथं वदामः यदि किं घटः कपाले वर्तते ओके okay. परन्तु यदि तथा घटः यथा घटः कपाले वर्तते तथा तु देवदात्तः भूतले नास्ति चन्दं भिन् तत्र चन्दभिन्नता तु द्वयोः प्रकारयोः अनुभूयते ज्ञायते अस्माभिः अतः एव सर्वदा वक्तव्यं भवतु घटः कपाले वर्तते समवायसम्बन्धेन तत्र एकः कश्चन प्रकारः एका गतिः गतिः वर्तते अन्या गतिः देवदत्त भूतलयोः तत्र संयोगसम्बन्धः इदानीं भवान् वदति रूपं द्रव्ये वर्तते तत्र अव्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वं कीदृशः यथा कापिः वृक्षे तत्र एव समस्या उत्पद्य उत्पद्यते बतु रूपं तु द्रव्ये समवायसम्बन्धेन परन्तु कापिः वृक्षे संयोगसम्बन्धेन एतत् एतत् अत्यन्तं भिन्नः विषयः कश्चन वर्तते अतः एव तस्य उदाहरणत्वं नैव सङ्गच्छते विषमोपन्यासः तत्र अत्यन्तं विषमम् एतत् उदाहरणं इति प्रश्नः तथापि वक्तुं शक्नुमः कपिः संयोगसम्बन्धे वृक्षे अस्ति फलानि संयोगसम्बन्धे वृक्षे अस्ति पत्राणि संयोगसम्बन्धे परन्तु केवलं रूपं समवायसम्बन्धेन पटे अस्ति अन्यत् किमपि नास्ति पठे न न पते तु समवायसम्बन्धेन भवतु अवयवानि अपि सन्ति तन्तवः अपि समवायसम्ब न क्षम्यतां क्षम्यतां तथा नास्ति न न न तन्तवः न नैव पते सन्ति परन्तु पटः तन्त् तन्तुषु वर्तते भवतु परन्तु एषः रूपम् इति गुणः पते अस्ति इति गुणः पते अस्ति गुणः वर्तते स सर्वः तत्र स्वाश्रयेषु गुणगुणिनोः क्रिया क्रियावतोः अपि यद्यपि अयं पाठः पतति अथवा उत्पतति तर्हि क्रिया या सायसम्बन्धेन तथा स्यात् परन्तु कपिः यदि प पठे स्यात् तत् सम, समय संयोगसम्बन्धेन तथा एव स्यात् भवतु एषः इदानीं प्रश्नः तत्र कश्चन समस्या एव अनुभूयते अस्माभिः सर्वैः अनुभूयते एतत् विषमां किञ्चित् विषमम् इत्युक्ते किं महोदय असमां नाम एक्साम्पल् वाय् तत्र अन्पारलव् Uh, means or uh, maybe disimilar disimilar example something like this tam eva tatrayad udaharanam dieti tarhi tasya kasna saman dharmah suspashtam apekshitah vartate parantu atra yat udaharana tvena sikritam तस्याः वस्तुतः प्रक् तस्य प्रकरणं तस्य प्रक प्रकृतिः तस्य स्वरूपम् अत्यन्तं भिन्नं वर्तते अत एव तत् उदाहरणत्वेन स्वीकर्तुं नैव शक्यं नैव अर्हति ओके मेबिवन् बेड् एक्साम्पल् बेसिक्लि इट्स् बेड् एक्साम्पल् सो इो संथिङ्ग् इस् इस् रे like i don't know any i don't know but so if you give an example an example must be parallel to what it exemplifies in this case so the example is about samyoga sambandha parantu the but it should exemplify is about samavaya sambandha so therefore it's a very bad example it means we we cannot accept that rupa and ghatta behave in the same way as kapi and vriksha because they have two very different ways of interaction samak <speaking> ha gata mohan <in> ji dani <Spanish> samak ah. okay tarhi idan idanum utaram utaram pasyamaha अत्र कपेः उदाहरणे संयोगरूपेण संयु कपेः उदाहरणे संयोगरूपगुणः स्वीकृतः न तु कपिः कपेः उदाहरणे संयोगरूपगुणः स्वीकृतः कपिः न स्वीकृतः संयोगरूपगुणश्च समवायसम्बन्धेन संयोगरूपगुणः च समवायसम्बन्धेन वृक्षे अग्रदेश अवच्छेदेन च मूलदेश अवच्छेदेन तु कपि संयोगः नास्ति तर्हि अग्रदेशे अग्रदेश अवच्छेदेन संयोगरूपगुणश्च समवायसम्बन्धेन वृक्षे अस्तिबन्धेन समवायसम्बन्धेन संयोगरूपगुणः वृक्षे अस्ति अग्रदेशे नास्ति मूलदेशेन मूलदेश अवच्छेदेन तु कपिसंयोगः नास्ति मूलदेशे अन्यसंयोगः स्यात् वायुः इत्यादिसंयोगः स्यात् किन्तु कपिसंयोगः नास्ति तर्हि समवायसम्बन्धेन चेदपि संयोगः एकस्मिन् अधिकरणे कुत्रचित् भवति कुत्रचित् न भवति मूलदेशे न भवति अग्रदेशे भवति परन्तु इदानीं तत्र मौलः विषयः वर्तते यत् इदानीं यदि तत् उदाहरणं स्वीकुर्मः यदि इदानीम् उदाहरणत्वेन अस्माकं वृक्षं कपिं च उदाहरणत्वेन स्वीकुर्मः वस्तुतः तत्र कापि वृक्षयोः कापि वृक्षयोः सम्बन्धः नैव अस्मा अस्माकम् अस्माकम् उदाहृतः नैव अस्माकम् अस्माभिः स्वीकृतः परन्तु कपि कपि संयोगस्य वृक्षस्य च नाम नैयायिकैः एतत् एतावता अस्माभिः न न प्राप्तुं परन्तु तत्र अग्रे पुस्तके एव सङ्गच्छते इदानीं संयोगः अस्माभिः संयोगसम्बन्धः संयोगसम्बन्धः इति उच्यते परन्तु संयोगः इति नैयायिकैः अपि गुणः कश्चन गुणत्वेन परिगण्यते संयोगः च किं चतुर्विंशतिषु गुणेषु संयोगः एकतर एकतमः वर्तते अत एव इदानीं संयोगुणः स न यतोहि गुणगुणोः समवायसम्बन्धः एव तर्हि संयोगगुणः वृक्षे समवायसम्बन्धेन एव तिष्ठति न तु सम् न तु संयोगसम्बन्धेन अतः इदानीं कपि वृक्षयोः उदाहरणे वस्तुतः न तु कपेः वृक्षस्य च सम्बन्धः परन्तु कपि संयोगस्य अपि च वृक्षस्य इति सम्बन्धः अस्माभिः अस्माभिः प्राकृतः अस्माभिः स्वीकृतः अस्माभिः उदाहृतः अत एव तत्र उदाहरणस्य साम्यम् उत्पन्नम् वैषाम्यं तु निरस्तं भगिनि अवगच्छति वा तत्र किं किं कृतं तत्र ओके सम्यक् सम्यक् सम्यक् समीचीनम् अतः एव या समस्या तत्र प्रदर्शिता सा नास्ति अथवा सा परिहृता इदानीं कापि संयोगस्य कापि वृक्षस्य च कापि वृक्षयोः इति न वक्तव्यं परन्तु कापि संयोगवृक्षयोः इति तथा वक्तव्यम् तत्र तु अव्याप्यवृचित्वम् अपि जातं तत्र अव्याप्यवृचित्वम् अपि सा किं समवायसम्बन्धावच्छिन्नं वर्तते सम्यक् वातु तर्हि अग्रे गच्छामः तर्हि प्रायः नीलं भगिनी पतति वा अपि प्रेषयद्वयं धन्यवादः धन्यवादः प्राचीनानां मतानुसारं रूपं किन्तु प्राचीनानां मतानुसारं रूपं किन्तु तथा नास्ति अस्तु रूपं तथा नास्ति एकत्र श्वेतरूपम् अन्यत्र रक्तरूपम् इति चेत् एकत्र विद्यमानं श्वेतरूपम् अन्यत्र रक्तरूपम् अनेन श्वेतरूपम् एकस्मिन् अधिकरणे कुत्रचित् भवति कुत्रचित् न भवति इति अव्याप्यवृत्तिः जाता प्राचीनाः वदन्ति यत् यथा यत् यत, तथा न भवति यतो हि रूपं व्याप्यवृत्तिः गुणः hmm. समाधानचित्ररूपम् hmm. एकस्मिन् पटे सर्वत्र एक एकैव एकैव रूपम् न ना श्वेतरूपं नापि रक्तरूपं चित्ररूपं तस्मिन् पटे सर्वत्रापि वर्तते अनेन अव्याप्यवृत्तित्वं न भवति इत्युक्ते महोदय अत्र दृष्टवन्तः तत्र व्याप्यवृत्तित्वम् अपि च अव्याप्यवृत्तित्वम् इति विषयद्वये अत्र चर्चा अस्ति तत्र प्राचीनानां तत्र मतानुसारेण तत्र यः रूपम् इति गुणः अस्ति द्रव्ये इति गुणः यस्मिन् कस्मिन् द्रव्ये तत्र मतानुसारं तत्र व्याप्यवृत्तिः किमर्थं चेत् यत्र एकस्मिन् द्रव्ये बहूनि रूपाणि सन्ति चेत् तत्र प्राचीन ये तत्र नयायिकाः ते तत्र तस्य नाम चित्ररूपम् इति दत्तं hmm. so, चित्ररूप वदामः चेत् तत्र कुत्रचित् चे तत्र एतादृशः भावः न भवति तत्र द्रव्ये रक्तरूपं वा श्वेतरूपं वा तत्र नीलरूपं वा इति परन्तु तत्र तत्र, तत्र मिक्स्चर् इति भवति सो तत्र तस्य नाम चित्ररूपं mm. सो तेषांसारेण तत्र रूपं सर, सर्वदा तत्र द्रव्ये व्याप्यवृत्तिः अस्ति रूपस्य रूपः रूप व्याप्यवृत्तिः न तु अव्याप्यवृत्तिः परन्तु ये नय्य ये नवनैयायिकाः तेषां मतोनुसारेण तत्र ते न स्वीकुर्वन्ति व्या तत्र व्याप्यवृत्तिः रूपस्य व्याप्यवृत्तिः इति न स्वीकरोति ते तेषां मतोनुसारेण तत्र अव्याप्यवृत्तिः इत्युक्ते तत्र अव्याप्यवृत्तिः इति वदामः चेत् तत्र एकस्मिन् अधिकरणे तत्र तत्र तस्य स्व अभावः अपि अस्ति अतः विद्यमानत्वम् अपि अस्ति इत्युक्ते अव्याप्य अपि अस्ति वृत्तित्वमपि अस्ति सो ते ते रूपस्य अव्याप्यवृत्तित्वम् इति स्वीकरोति न तु व्याप्यवृत्तिः सो तत्र, यथा तत्र पटे रक्तरूपं श्वेतरूपं तत् एकस्मिन् एकस्मिन् देशे तत्र रक्तरूपम् अस्ति परन्तु अन्य अन्य स्थले अन्यदेशे तत्र रक्तरूपस्य अभावः तत्र अव्याप्यवृत्तित्वम् इति तत्र यः तस्य लक्षणम् इति तत्र पूर्वे दृष्टम् एकस्मिन् एव अधिकरणे विद्यमानत्वम् अपि च तस्य अभावः अपि अस्ति इति अव्याप्यवृत्तित्वम् आम् सम्यक् तदेव समीचीनं भवतु तर्हि अग्रिम नव् नव्यानां मतानुसारं पटस्य प्रसंगे रूपस्य अवच्छेदकं पीततन्तुः रक्ततन्तुः नीलतन्तुः यथा कपि संयोगस्य अवच्छेदकम् अग्रदेशः अग्रदेशः अतः पटे चित्ररूपं मास्तु अव्यरूपं तत्र भासते एव Hmm, पटे चित्ररूपं मास्तु अव्यरूपम् अवयव अवयव अवयव अवयवरूपं तत्र भासते एव नानातन्तुः सन्ति तन्तवः च भिन्नभिन्न वर्णयुक्ताः अनेन तन्तुभ्यः भिन्नं पटे भिन्नं पटे पृथक् रूपं न उत्पद्यते न वा तन्तुषु विद्यमानं रूपम् एव पटे भासते hmm. तत्र पटस्य प्रसङ्गः तत्र यः अस्ति तत्र नव्यानां ये नयायिकाः नव्यनव नयायिकाः एतेषाम् अनुसारेण तत्र यः पटस्य अवच्छेदकम् इति यः अस्ति तत्र पीततन्तु रक्ततन्तु नीलतन्तु तत्र य यथा तत्र कपि वृक्षे कपि संयोगः इति तत्र अग्रदेशे अस्ति न तु मूले अस्ति कुत्रचित् भिन्नप्रदेशे अस्ति सो तत्र यः वृक्षे कपि संयोगः यः अस्ति तत्र अवच्छेदकं किम् इति वदामः चेत् अग्रम् अग्रभागं वृक्षस्य अग्रम् अस्ति तथैव तत्र पटे पटे तत्र पते, आ, पते, तत चित्ररूपम् अस्ति चेत् तत्र अवच्छेदकं भिन्नभिन्न अवच्छेदकानि तत्र सन्ति पीततन्तु रक्ततन्तु नीलतन्तु सो so, तत्र अतः पटे चित्ररूपं मास्तु सो so, तेषां तत्र चित्ररूपम् इति तत्र आ, आ, मास्तु इति ते वदन्ति अवयवरूपं तत्र भासते एव इत्युक्ते तत्र अवयवानि सन्ति तत्र रक्त पीत नील इति तत्र ये तन्तवः भिन्नभिन्नतन्तवः अत्र तत्र अवयवाः सन्ति अतः तत्र सन्ति तत्र तन्तवः नानातन्तवः सन्ति तन्तवः च भिन्नभिन्नवर्णयुक्ताः अस्तु तत्र तेषां यः कलर् अस्ति भिन्नभिन्न अस्ति अतः ते नाना सन्ति अपि च भिन्नभिन्न अपि अस्ति अनेन तन्तुभ्यः भिन्नं पटे पृथक् रूपं न उत्पद्यते न वा अपेक्ष्यते तत्र चित्ररूपम् इति न वक्तुं शक्यते इति तेषां मतः तन्तुषु विद्यमानः रूपम् एव पटे भासते इत्युक्ते तन्तु तन्त्वः द्वा येषां तत्र कलर् अस्ति तेषां जानाति वा तन्तुः नाम किं जानाति वा त्रु तन्तवः तन्तुः तन्तु तन्तवः सम्यक् ते चित्ररूपम् इति न मन्यन्ते अपि च तत्र अपेक्षा तेषां मतः आम् अपि च भवतु तत्र केवलं तत्र प्रसङ्गरूपेण उक्तं परन्तु एतदपि अत्यन्तं अत्यन्तं महत्वपूर्ण वा अत्यन्तं प्रधानवस्तुतः वर्तते यत् न प्राचीनविषये तथा एव स्वीक्रियते यत् इदानीम् अवयवेषु अवयवात् अथवा अवयवेभ्यः यदि एकं नूतनम् अवयवी उत्पद्यते तर्हि एतस्मिन् अवयविनि नाम एतस्मिन् अवयवी अव अवगच्छन्ति वा सर्वे अवयवः नाम पार्ट्स् अवयवी नाम ओके इदानीं यदि नूतनं नूतनः अवयवी उत्पद्यते अवयवेभ्यः तर्हि तस्मिन अवयवि अय् अवयविनी अपि नूतनं रूपम् एकम् अभिन्नं नूतनं रूपं तथा अपेक्षितम् अस्ति अतः एव भवतु नाम तत्र तन्तुषु रूपाणि भिन्नानि रूपाणि सन्तु भवन्तु एव तथापि तथापि जना इदानीं ते तेषां तत्र मिश्रणेन तेषां सर्वेषां रूपाणां मिश्रणेन वा एकं नूतनं रूपम् उत्पद्यते तत्र नूतनतया नूतनया उत्पन्ने पाते नूतनया उत्पन्ने नाम पातरूप पात पातात्मके अवयविनी एकम् एव नूतनं रूपम् अपि उत्पद्यते इदानीं तस्या रूपस्य नाम चित्रम् इति स्वीक्रियते परन्तु नया नवीनैः एतादृशः प्रकारः न स्वीक्रियते ते वदन्ति तथा नास्ति इदानीं यत् रूपं तन्तुषु आसीत् अथवा यानि यानि रूपाणि तन्तुषु आसन् तानि तानि सर्वाणि तथा एव तिष्ठन्ति अपि इदानीं सर्वाणि अवयवानि अवयविनाः एकदेशभूतानि तथा एव तिष्ठन्ति अत तत्र अवयवम् आश्रित्य अथवा अवयवम् अव अवयवम् आश्रित्य अपि रूपानां भेदः सङ्गच्छते भवतु तथा प्राक् अस्माकं कापि संयोग उदाहरणे अस्माभिः उक्तं भवतु आग्रदेशः अवच्छेदकः भवति मूलदेशः अवच्छेदकः भवति परन्तु इदानीं सम्पूर्णतया अथवा सामान्यतया वदामः चेत् तत्र अवयवाः एव एकावयवाः एकदेशः अवयवी एकदेशः अवयवी अवयवः अवयविनः एकावयवः एव भवतु तस्मिन् मते भवतु अवच्छेदकः यथा वृक्षे वृक्षा एकदेशः अग्रभागः वा अन्यः कश्चन भागः भवतु तथा एव पते पतायकदेशः नाम एकः तन्तुः अथवा तन्त तन्तूनं तन्तूनं किं समुच्चयः बतौ तन्ु तन्तूनं समुच्चयः बतौ कदाचित् अवच्छेदकः येन अपि रूपाणि भिद्यन्ते ओके वा अवगच्छामः सम्यक् तर्हि सम्यक् तर्हि अग्रे गच्छामः तदापि परिचेदीर्घः बगीन। परिच्छेदः तथापि कृपया प्राचीनाः किम् उत्तरं ददति चक्षुरिन्द्रियप्रत्यक्षं प्रति रूपं कारणं रूपं नास्ति चेत् तस्य द्रव्यस्य चक्षुषप्रत्यक्षं न भवति अत्र कार्यकारणभावः प्रयुक्तः इति यदि पटे रूपं नास्ति तन्तुषु एव रूपं वर्तते इति यदि वदन्ति तर्हि पटे समवाय समवायसम्बन्धेन रूपं नास्ति इति उक्तं पटस्य प्रत्यक्षमेव न स्यात् अतः चित्ररूपम् अङ्गीकर्तव्यम् अनेन तन्तुषु रूपं भवति तदा भिन्नभिन्नतन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नं भिन्नभिन्नवर्णयुक्ततन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नम् तथा च पटे रूपम् अस्ति समवायसम्बन्धेन अनेन पटस्य प्रत्यक्षं भवति किं प्राचीनाः किम् उत्तरं ददति किमर्थम् एवं सर्वं चिन्तनं कुर्वन्ति इति इत्युक्ते चक्षुरिन्द्रियप्रत्यक्षं प्रति रूपं कारणं यदि चक्षुरिन्द्रियेन ये किमपि प्रत्यक्षं भवति ज्ञानं जन्यते चेत् तस्य कारणं रूपमेव अतः hmm. रूपं नास्ति चेत् तस्य द्रव्यस्य चाक्षुषप्रत्यक्षं न भवति यदि कस्मिञ्चित् द्रव्ये रूपं नास्ति चेत् चक्षुः चक्षुरिन्द्रियेण तस्य प्रत्यक्षं नतुं चक्षु, शक्नुमः न अनुभव् अनुभवामः इति अत्र hmm. कार्यकारणभावः प्रयुक्तः सो किम् अस्ति कारणम् अस्ति चेदेव कार्यं भवति इति एव रूपम् अस्ति चेत् एव तस्य प्रत्यक्षं भवति द्रव्यस्य प्रत्यक्षं भवति इति एव कारणात् रूपं भवेत् रूपं नास्ति चेत् प्रत्यक्षं न भवति इति एव कार्यकारणभावः प्रयोगं कृत्वा एव तस्य विवरणं विवरणं कुर्वन्ति प्राचीनः इति यदि यदि पटे रूपं नास्ति तन्तुषु एव रूपं वर्तते इति यदि वदन्ति तर्हि पटे समवायसम्बन्धेन रूपं नास्ति इति उक्तौ पटस्य प्रत्यक्षमेव न न यदि एवमेव स्वीकुर्मः तन्तुषु एव रूपम् अस्ति पीततन्तुः रक्ततन्तुः नीलतन्तुः इति उक्तं तत्र रूपं वर्तते इति स्वीकुर्मः चेत् पटे रूपं नास्ति यदि पटे रूपं नास्ति तन्तुषु एव रूपं वर्तते इति यदि वयं स्वीकुर्मः चेत् पटे रूपं नास्ति इति कारणात् तस्य प्रत्यक्षमेव न भवति चक्षुरिन्द्रियप्रत्यक्षं प्रति रूपं कारणम् इति अस्ति अतः पटे रूपं नास्ति इति कारणेन तस्य पटस्य प्रत्यक्षमेव न भवति परन्तु एवं तु न भवति एव अतः चित्ररूपम् अङ्गीकर्तव्यम् अतः पटे किमपि रूपं भवेत् येन कारणेन तस्य प्रत्यक्षं भवेत् इति कारणं स्वीकृत्य पटे किम् अस्ति इति चित्ररूपम् इति स्वीकुर्मः इति अङ्गीकर्तव्यम् इति प्राचीनाः मतम, अनेन तन्तुषु रूपं भवति तदा भिन्नभिन्नतन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नं किं कथं ते वदन्ति तन्तुषु भिन्नभिन्नरूपं भिन्नभिन्नरूपं रूपाणि सन्ति परन्तु योजनेन य पटस्य यद् उत्पत्तिः भवति तत्र चित्ररूपं भवति चित्ररूपस्य उत्पत्तिः भवति चित्ररूपम् अस्ति इति कारणात् पटस्य प्रत्यक्षं भवति चक्षुरिन्द्रेण पटस्य प्रत्यक्षं भवति इति एव तत्र वार्ता भिन्नभिन्नवर्णयुक्ततन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नं समानं तथा च पटे रूपम् अस्ति समवायसम्बन्धेन यद् चित्ररूपं तदपि गुणः अतः समवायसम्बन्धेन पटे अस्ति अनेन पटस्य प्रत्यक्षं भवति सो so, एकस्मिन् वाक्ये एव वक्तव्यं चेत् तन्तुषु भिन्नभिन्नरूपाणि सन्ति तन् तन् तं, तन्तवः तं, मिलित्वा पटस्य उत्पत्तिः भवति पटे चित्ररूपम् इति नूतनरूपस्य उत्पत्तिः भवति चित्ररूपमस्ति इति कारणात् पटस्य प्रत्यक्षं भवति चक्षुरिन्द्रियेन इति एव तत्र वार्ता सम्यक् सम्यक् समीचीनम् अन्यथा तु तत्र कदाचित् न भविष्यत् केवलं केवलं तन्तु तन्तुसमूहः अस्माभिः ज्ञातव्यः स्यात् परन्तु तथा नास्ति शब्दप्रयोगः अन्यथा सम्यक् समीचीनं तर्हि अग्रे पठामि वा हा कृपया किन्तु नव्यानाम् अनेन न कोऽपि दोषः चाक्षुषं प्रति रूपं कारणं नव्यानां मते श्वेतरूपम् अपि अस्ति नीलरूपम् अपि अस्ति बहूनि रूपाणि सन्ति पटे तद्द तद् तद् अवयवैः तत्तद् उत्पद्यते पटे इति स्वीक्रियते चेत् पटे रूपं सिद्ध्यति यथा कपिसंयोगः वृक्षस्य अग्रभागे सति अपि सम्पूर्णवृक्षे अपि वर्तते तथैव रक्तवर्णयुक्ततन्तुभिः पटे रक्तरूपं जायते एवमेव श्वेतरूपयुक्त अवयवैः अवयवैः अवय पटे श्वेतरूपं जायते अत्र समवायसम्बन्धेन न केवलं रूपम् अस्ति अपि तु रूपाणि सन्ति अत्र मुख्यम् अस्ति यत् प्राचीनाः रूपस्य व्याप्यवृत्तित्वं मनसि कृत्वा चित्ररूपम् अङ्गीकृतवन्तः नव्यैः तु यथा संयोगस्य अव्याप्यवृत्तित्वं भवति तथा रूपस्य अपि अव्याप् अव्याप्यवृत्तित्वं भवतु न कापि हानिः इति चित्र इति चित्ररूपम् अनङ्गीकृत्य भिन्नभिन्नरूपाणि भवन्ति इति अङ्गीकृतवन्तः अनेन नूतनचित्ररूपं न न अपेक्षितम् इति पर्यवसितं पर्यवसितम् hmm. अस्तु अस्तु एवं चेत् नव्यानां, नव्यानां मते कथं एतस्य चिन्तनं प्रत्यक्षं कथं भवति इति अनेन न कोपि दोषः चाक्षुषं प्रति रूपं कारणं तत्तु अस्ति एव नव्यानां मते श्वेतरूपम् अपि अस्ति नीलरूपमपि अस्ति बहूनि रूपाणि सन्ति यानि या ये ये सन्तवः सन्ति तेषां यद्यद् रूपम् तदेव तत्र पटे सन्ति एव एकमेव रूपं न कृत्वा बहूनि रूपाणि सन्ति पटे अनन्तरं तत्तद् अवयवैः तत्तद् रूपम् उत्पद्यते पटे इति स्वीक्रियते चेत् अपि पटे रूपं सिद्ध्यति तन्तोः यत् रूपम् अस्ति तदेव पटे अपि अस्ति इति कृत्वा बहूनि रूपाणि पटे सन्ति इति कृत्वा पटे रूपम् अस्ति इति रूपम् एकं रूपम् अस्ति एव इति स्वीक स्वीकर्तुं शक्नुमः चेदपि पठे रूपं भवति एव यथा कपिसंयोगः कपिसंयोगः वृक्षस्य अग्रेभागे अस्ति इति ज्ञातवन्तः अग्रे भाग अग्रभागे अस्ति चेदपि वृक्षे सम्पूर्णवृक्षे अपि अस्ति एव वर्तते एव तथा एव यद् रक्तवर्णयुक्ततन्तुभिः पठे रक्तरूपं जायते अस्तु यत्र रक्तवर्णयुक्ततन्तुः अस्ति तत्र रक्तरूपम् अस्ति परन्तु तन्तुना जायते पटः अतः रक्तरूपं पटे अपि अस्ति इति स्वीकुर्मः यथा कपिसंयोगः अग्रभागे अस्ति सम्पूर्णवृक्षे अपि अस्ति तादृशमेव रक्तरूपं तन्तु तन्तौ तन्तौ अपि अस्ति सम्पूर्णपटे अपि अस्ति इति एव स्वीकुर्मः एवमेव श्वेतरूपं युक्त अवयवैः पटे श्वेतरूपं यत्र अस्तु तन्तु तन्तोः श्वेतरूपम् अस्ति अतः सम्पूर्णपटे अपि श्वेतरूपं जायते इति कृत्वा रूपं समवायसम्बन्धेन के एव भवितुमर्हति अत्र समवायसम्बन्धेन न केवलं रूपम् अस्ति अपि तु रूपाणि सन्ति पटे पश्यामः चेत् बहूनि रूपाणि सन्ति समवायसम्बन्धेन इति अत्र मुख्यमस्ति यत् प्राचीनाः रूपस्य व्याप्य हा अस्तु तत्र भेदः किं कुत्र आगच्छति प्राचीनाः रूपस्य व्याप्यवृत्तित्वं स्वीकुर्वन्ति अतः नूतनचित्ररूपस्य चिन्तनं कृत्वा चित्ररूपस्य अङ्गीकारं कुर्वन्ति परन्तु नव्यैः किं वदन्ति संयोगस्य अव्याप्यवृत्तित्वं भवति तथा एव रूपस्य अपि अव्याप्यवृत्तित्वम् एवम् स्वीकृत्य अपि चित्ररूपस्य आवश्यकता नास्ति पटे ये ये तन्तवः सन्ति तेषां रूपं तत्र पटे अपि अस्ति इति कृत्वा चित्ररूपस्य अङ्गीकारं न कुर्वन्ति अनङ्गीकृत्य भिन्नभि भिन्नभिन्नरूपाणि भवन्ति पटे इति ते स्वीकुर्वन्ति अतः तेषां मते चित्ररूपस्य आवश्यकता इव नास्ति अतः ते न अङ्गीकुर्वन्ति तस्य आं सम्यक् एतावता सयमेव सारांशः एषः एव ज्ञातव्याः विषयः वर्तते सर्वस्य करपत्रस्य न तु अन्यात् तदपि समीचीनं परन्तु यदि अमुं विभागं अमुं भेदं जानीमः भेदम् अवगच्छामः तावता एव पर्याप्तं स्यात् भवतु तर्हि किं कुर्मः तत्र पुस्तकं गच्छामः वा इयं सर्वं स्पष्टम् अथवा किञ्चित् स्पष्टम् अथवा प्रश्नाः सन्ति चेत् तत्करपत्रम् उपरि कृपया पृच्छन्तु अन्यथा पुस्तकमेव गच्छामः पुस्तके वस्तुतः तत्र किं पुस्तके ग्रह्यपादयुक्तानां इतरलक्षणानां निरूपणम् एतत् अपि दृष्टम् तदनन्तरं तत्र तर्हि तर्हि तर्हि तावेव पठामः एतत् अस्माभिः इदानीं यद्यपि तत्र नूतनं किमपि नास्ति तत् कालपत्रं दृष्ट्वा सर्वमवगच्छामः सर्वमवगच्छामः तथापि इदानीं सूचि लञ्चिका यत्र शीर्षकं वर्तते तत्र तस्मादारभ्य एव पतामः अतः पचितं वा न पचितं यजिमन्ये न पचितं यदपि सर्वं स्पष्टं तदपि न पचितम् इति मन्ये अत एव अथवा कुत्र पश्यामि एकनिमेषम् अस्माकं रिकार्डिङ्ग्स् मध्ये पश्यामि धन्यं द्रू एकनिमेषम् ओके अत्र अस्ति भवतु तत्रापि तथा उच्यते नाम सेवेण्टि नैन् आरभ्यः सेवेण्टि नैन् आरभ्य व्यापिविचित्वम् अव्यापिविचित्वम् इति पदार्थनिरूपणम् इति अत्र आरभ्य तदेव पतामः रूपणं नव्यनैयायिकाः न इदं सहन्ते तेषाम् अयम् आशयः वृक्षे संयोगसम्बन्धेन कपिः अस्ति चेत् सः तस्मिन् वृक्षे अग्रे मूलं कस्यांश्चित् शाखायां वा भवति न तु सर्वेषु अवयवेषु कपिः भवति वृक्षगतरूपं तु सर्वेषु अवयवेषु वर्तते इति तत् व्याप्यवृत्ति इति उच्यते कपिः तत् संयोगः सर्व अवयवेषु वर्तते कपि संयोग अव्याप्यवृत्ति अव्याप्यवृत्ति स्वभा उदाह व्याप्यवृत्ति व्याप्यवृत्ति नव्ययिका इदम न सहते Uh, <laughs> इत्युक्ते इदं नाम चित्ररूपं तत् तत्र प्राक्तने परिच्छेदे तदेव उक्तं सप्तविधं वर्तते रूपं तथा तत्र सप्तविधं सप्तविध परिगणने अन्तिमं रूपं प्राप्तुं चित्रम् इति इदानीम् एतत्तु न विनायकः न सहन्ते स्वीकुर्वन्ति वा न स्वीकुर्वन्ति तेषाम् आशयः केवलं व्याप्यवृत्तिः अव्याप्यवृत्तिः इति मतद्वयं खलु तेषां मतं ततो गत्वा तेषां मतं वर्तते यत् रूपम् अव्याप्यवृत्ति अव्याप्यवृत्तिगुणः अतः एव तत्र क्षीत्ररूपस्य अपेक्षता नास्ति वृक्षे संयोगसम्बन्धेन कपिः अस्ति इत्युक्ते पूर्वमपि दृष्टं कस्मिंश्चित् कस्मिंश्चित् स्थले अग्रदेशे वा कपिः अस्ति कीदृशसम्बन्धेन संयोगसम्बन्धेन वृक्षे भवति परन्तु तदापि कपयः सर्वत्र नास्ति सर्वेषु अवयवेषु नास्ति केवलं अग्रदेशे वा मूलदेशे वा कस्मिंश्चित् शाखायां भवति वृक्षगतरूपं न तु वृक्षगतरूपं सर, तु सर्वेषु अवयवेषु वर्तते इति तत् तत् एव व्याप्यवृत्तिः व्या वृक्षगतरूपम् सर्वेषु अवयेषु वर्तते परन्तु कपिः कस्मिंश्चित् अवयवेषु कस्मिंश्चित् स्थले वर्तते तत् तदेव व्याप्य इति उच्यते कपिः कपिः तत् संयोगो सर्व अवयवेषु वर्तते इति कपिः कपि इति कपिः कपिसंयोग वा अव्याप्यवृत्तिः इति उच्यते ृत्तित्वम् इत्यस्य वस्तुतः इदानीम् अस्माभिः तु दृष्टवन्तः भवती अपि वसतः एतत् पठितवती यत् कापि कापि संयोगो वा अव्याप्यवृत्तिः भवतु यदपि एतत् समीचीनं परन्तु अस्माकं अस्माकं प्रकरणे यदा रूपपरिशीलनं क्रियते तर्हि तत्र कापि संयोगः एव उदाहरणत्वेन स्वीकर्तव्यः न तु कपिः यतो कापि संयोगः समवायसम्बन्धेन कतिस्तु संयोगसम्बन्धेन वर्तते अतः एव संयोगसम्बन्ध उदाहरणं विषमम् एव अस्ति क्षम्यताम् इदानीं क्षम्यतां भगिनी तत्र किञ्चित् प्राष्टुं प्रकृतवती आं वृ वृक्षरूपं तु सर्वेषु अवयवेषु वर्तते इति व्याप्यवृत्ति इति उच्यते कपि तत् संयोगः वानसर्व अवयवेषु वर्तते इति कपि अव्याप्यवृत्तिः तस्मिन् वाक्यस्य अर्थः किं किञ्चित् करोतु एतत्तु इदानीं इदा सर्वप्रथमं सर्वव्याप्यवृत्तिः यदुक्तं तत्र तत्तु प्रचीनमतानुसारम् उक्तम् इदानीं प्राचीनमतानुसारम् उक्तं यत् वृक्षे एकं किञ्चन रूपं वर्तते नाम एतत् वृक्षस्य रूपं वृक्षकतरूपम् इति उक्तम् एतत् एकम् अभिन्नं वृक्षकतरूपं सर्वेषु अवयवेषु वर्तते अतः एव एतत् रूपं व्याप्यवृचि यथा इति कश्चन गुणः इदानीं यदि एषः वृक्षः एकः तर्हि एषः सङ्ख्या नाम गुणः सर्वस्मिन् वृक्षे एव वर्तते नाम सार्व सर्वाणि अवयवानि एव व्याप्य वर्तते मृतु नाम मूले एकत्वं परन्तु शाके द्वित्वम् इति तथा मास्तु तथा नास्ति बतु एतत् अव्याप्यवृच्छिः इदानीं द्वितीयः अस्ति भवतु तत्र अव्याप्यवृच्चिः प्रदर्शितः अव्याप्यवृच्चित्वं प्रदर्शितम् अव्याप्यवृच्छित्वम् अस्माभिः ज्ञायते इदानीं कापि वृक्षे अस्ति तर्हि न सर्वेऽस्मिन् वृक्षे परन्तु वृक्षैकदेशीये वा अत एव तत्र अव्याप्य वृचितम् परन्तु इदानीं तदेव तदेव भगिनी अपि पचितवती इदानीं वस्तुतः उभयम् एव समीचीनं नाम कदाचित् कापिः यदि कापिः कुत्रचित् वृक्ष वृक्षस्य उपरि अस्ति सीदति तर्हि वयं ज्ञातुं वयं वक्तुं वक्तुं शक्नुमः तदेव वक्तुं युक्तं वर्तते यत् कपिः अधेयः वृक्षः आधारः तयोः आधारः अश्राश्रयीभावः आधारादेयभावः वर्तते अयम् आधारादेयभावः अव्याप्यवृत्तिः नाम भवतु वृक्षस्य उपरि सोऽयम् आधारादेयभावः तिष्ठति परन्तु वृक्षस्य मूले तथा नास्ति तत्र विशेषम् एकस्याम् एव शखायाम् अयम् अधारदेहभावः अस्ति न तु सर्वस्मिन् वृक्षे अन्यस्यां तु शखायाम् अयं कपिः नास्ति इति एतत् तत्र कापीं कापीम् उद्दिश्य तथा वक्तुं शक्नुमः परन्तु इदानीं न केवलं कपिम् उद्दिश्य एतत् वक्तुं स सङ्गच्छते परन्तु कपिसंयोगम् अपि उद्दिश्य कपिसंयोगः नाम किम् इदानीं तत्र चिन्ततु शखायं कपिः वर्तते इदानीं कपिः शखायं वर्तते इति वदनेन तत्र केन सम्बन्धेन वर्तते इति सर्वत्र न्यायिकैः प्रष्टव्यं केन सम्बन्धेन वर्तते तत्र संयोगसम्बन्धेन यतोहि द्वयोः द्रव्ययोः सर्वदा संयोगसम्बन्धः एव स्वीक्रियते इदानीं यदि कपिः वृक्षे संयोगसम्बन्धेन अथवा वृक्षस्य एकदेशे शखायां संयोगसम्बन्धेन तिष्ठति इदानीम् अयं संयोगसम्बन्धः कीदृशः पदार्थः यतो हि नैकैः सर्वदा सर्वे पदार्थाः कुत्रचित् तत्र सप्त पदार्थेषु तत्र स्थापितव्याः इदानीं संयोगसम्बन्धः नैयायिकैः गुणेषु एव परिगण्यते नाम संयोगः अयं कापि कापि वृक्षयोः यः सम्बन्धः संयोगसम्बन्धः स संयोगसम्बन्धः नैयायिकैः गुणत्वेन स्वीक्रियते तत्र चतुर्विंशतिगुणाः सन्ति एतेषु एकतर एकतमः वर्तते संयोगः अयं कापि वृक्षयोः संयोगः गुणभूतः संयोगः सः अपि न सर्वेषु वृक्षेषु अस्ति परन्तु यत्र कपिः वर्तते तत्र यस्मिन् एकदेशे वर्तते तत्र सः वयं संयोगः अस्ति अत एव यथा कपिः केवलं शखायाम् तथा एव कपिसंयोगः नाम कापि संयोगः केवलं शखायाम् न तु वृक्षस्य मूले इदानीम् अग्रे तत्र लक्षणं दीयते तत्र सावधानं पुनर्कवारं पततु अव्याप्यवृच्छ एतत् अव्याप्यविरुचित्वस्य लक्षणम् अभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति अर्थः इदानीं तत्र स्पष्टीकरणार्थं स्व इति स्थाने कपि इति चिन्तयतु इदानीं स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वं तत्र कपि अभावस्य अधिकरणे कपेः विद्यमानत्वम् इति तथा चिन्तयतु इदानीं केवलं स्पष्टीकरणार्थं कपि अभावस्य अधिकरणं किम् तत्र इदानीं कपि अभावस्यधिकरणे इदानीं कुत्र किं कपि अभावादिकरणं कीदृशम् इदानीं तत्र भवतु पर्वतं पार्वतो भवतु तत्र किमपि अन्यत् भवतु परन्तु वस्तुतः यदि वदामः यत् कपिः शकायां वर्तते तर्हि इदानीं कापि कापि अभावस्य अधिकरणं वृक्षमूलः भवितुम् अर्हति वृक्षमूलं भवतु स्वभावस्य अथवा स्वभावस्य अधिकरणम् अथवा कपि अभावस्य अधिकरणं वृक्षमूलं भवतु परन्तु इदानीम् एतत् वृक्षमूलम् एतत् सर्वं विहाय केवलं वक्तुं शक्नुमः यत् यदि कपिः वृक्षमूले नास्ति तर्हि वृक्षः साक्षात् कपि अभावस्य अधिकरणमस्ति यतोहि वृक्षमूल परन्तु वस्तुतः तत् तथा एव एतत् सर्वं तत्र दीर्घं करपत्रं तत्र दत्तं तदेव इदानीं तत्र वदामः इदानीं मूलदेश अवच्छेदेन वृक्षः वृक्षे कपिः नास्ति इति वक्तुं समीचीनं परन्तु शखादेशावच्छेदेन तस्मिन् एव वृक्षे कपिः अस्ति तदापि वक्तुं समीचीनम् आम् अतः एव इदानीं मूल वृक्षमूले अस्ति भवतु एतत् समीचीनं परन्तु न्या न्यायिका अथवा नाव्यन्यायायिकदृष्ट्या तत्र उभयत्र वस्तुतः वृक्षे अस्ति वृक्षे नास्ति च इति उभयं सङ्गच्छते परन्तु एकस्मिन् पक्षे तत्र मूलत्वेन अवच्छिन्ने वृक्षे अन्यस्मिन् पक्षे तु शकात्वेन अवच्छिन् अवचिन्ने वृक्षे अत एव एतत् एतत् लक्षणं सङ्गच्छते अव्याप्यवृचितं नाम किम् अव्यप्यवृच्छितम् इति एतादृशधर्मः प्रप्यते यत्र स्वस्य विद्यमानत्वम् अस्ति तथा गच्छामः यदि नाम वृक्षे कपेः विद्यमानत्वं तु अस्ति कपेः वि वृक्षस्य विद्यमा क्षम्यतां पुनर्कवरं वृक्षस्य कपेः क्षम्यतां कपेर्विद्यमानत्वम् अस्ति एव वृक्षे परन्तु सोऽयं वृक्षः कपि अभावस्य अधिकरणमपि अस्ति मूलमूलत्वेन अवच्छेद मूल मूलभागावच्छेदेन वृक्षः कपि अभावस्य अधिकरणं शका शकाभागावच्छेदेन वृक्षः कपिभावस्य अधिकरणम् अत एव स्वभाव स्व अभावस्य अधिकरणे कपि अभावस्य अधिकरणे वृक्षे स्वस्य स्वभावस्याधिकरणे स्वस्य विद्यमानत्वम् इति लक्षणं तत्र मनसि अपि दर्यते इति चेत् तत् समीचीनं स्वभावस्याधिकरणे स्वस्य विद्यमानत्वम् अव्याप्यवृत्तित्वं सम्यक् समीचीनं समीचीनम् स्पष्टमस्ति चेत् समीचीनं तर्हि अग्रे गच्छामः किञ्चित् पठामः तर्हि नीलं भगिनि पतति वा एकस्मिन् एव वस्तुतः अत्र एव लक्षणम् एव तत्र स्पष्टीक्रियते क्षणं मया इदानीम् अन्य बहु समयः तत्र आनीतः आं तत्र एकस्मिन् एव वृक्षरूपे कपिः अस्ति अग्रदेशवर्तिः अग्रदेशवर्तिशाखायां तस्य अभावस्तु मूलदेशवर्तिः शाखायाम् एवं च अग्रं कपिनिष्ठ निरूपिता या वृक्षनिष्ठ अधिकरणता इति उच्यते मूलं च कपिसंयोग अभावनिष्ठाधेयता इत्युक्ते अत्र यत्र अव्याप्यवृत्तिः इति अस्ति अव्याप्यवृत्तिः तत्र एकस्मिन् एव अधिकरणे कस्यचित् पदार्थस्य अपि च अभावः अपि अस्ति विद्यमानत्वमपि अस्ति एकस्मिन् एव अधिकरणे सो तत्र अव्याप्यवृत्तिः इत्यत्र तस्य लक्ष्यं तस्य कः अर्थः इत्युक्ते एकस्मिन् एव वृक्षरूपे वृक्ष वृक्ष यः अस्ति वृक्षे अधिकरणता अस्ति वृक्षे कपिसंयोगः अस्ति परन्तु कपिसंयोगः एकस्मिन् एव शाखायाम् अस्ति न तु सर्वेषु तत्र भवति अत्र उदाहरणे मूल अग्रदेशवर्ति शाखा अस्ति तस्मिन् कपिसंयोगः अस्ति परन्तु यः वृक्षस्य मूलम् अस्ति अधिकर्णं तु वृक्षः तादृशवृक्षः एव परन्तु मूले तत्र कपिसंयोगस्य अभावः तत्र कपिसंयोगः नास्ति अतः तत्र तत्र अवच्छेदक आदेयताद्वयम् अपि भवितुम् अर्हति इत्युक्ते वृक्षं वृक्षस्य तत्र वृक्षः कथा निरूप् कथं का, निरूप्यते निरू इति वदामः चेत् mm -hmm. क्तुं शक्यते अग्रम् इत्युक्ते अग्रभागे अस्ति अग्रं किम् अग्रभागं कपिनिष्ठ अधेयता निरूपितवृक्षनिष्ठ अधिकर्णता सो द्वितीयमस्ति मूलं यः अस्ति तत्र अभावः अस्ति अतः कपिसंयोग अभावः मूलं तु कपिसंयोग अभावः अतः संयोग अभावनिष्ठाधेयता निरूपित अधिकर्णता अवच्छेदकं सो अवच्छेदकद्वयं भवति अत्र अग्रम् hmm. अपि च कस्य अवच्छेदकम् इत्युक्ते तत्र वृक्षस्य वृक्षे अधिकर्णता अस्ति तेन एव कीदृशवृक्षमिति वदामः चेत् अग्र अग्रभागनिष्ठ कपि कपि संयोगनिष्ठ अधिकर्णता hmm. अपि अधिकर, च मूलं मुल, च तत्र कपि संयोग अभावनिष्ठा तत्र अधिकरणता अस्तु अव्याप्यवृत्तिः इति तस्य इति वाक्यं भवितुम् अर्हति एकस्मिन् एव अधिकरणे संयोगः अपि अस्ति अपि च अभावः अपि अस्ति सर्वत्र नास्ति इत्युक्ते तत्र व्याप्यवृत्तिः इति वदामः चेत् तत्र पूर्वे दृष्टं वृक्षगतरूपम् इति यः तत्र अस्ति व्याप्यवृत्तिः वयं वक्तुं शक्यते तत्र वृक्षत्वम् इति यः अस्ति वृक्षत्वं मूलम् अपि अस्ति शाखायामपि अस्ति ट्रङ्क् मध्ये अपि अस्ति सर्वत्र अस्ति वृक्षत्वं सो तत्र वृक्षत्वम् इति यः अस्ति सः व्याप्यवृत्तिः परन्तु यः कपि प्रयोगः स तु सर्वत्र न भवति एकस्मिन् अधिकरणे कुत्रचित् अस्ति कुत्रचित् अभावः अतः तत्र ah. स्व अभावस्य अधिकरणे एकस्मिन् एव अधिकरणे अभावः तस्य अभावः अपि च तस्य विद्यमानत्वम् अपि अस्ति इति अव्याप्यवृत्ति लक्षणम् अस्ति आम् आम् आम् आम् अत्यन्तं समीचीनं तदेव भगिनी अत्यन्तं तत्र अत्यन्तं उदाहरणं दत्तं भगिनी व्याप्येव व्याप्येव सम्यक् समीचीनं समीचीनं तर्हि किम् आग किञ्चित् पठामः इति मया तत्र परिचयद्वयं वर्तते प्रायः तत्र पश्यामः कियत् दूरं गन्तुं शक्यते तर्हि शीतलक्ष्मी भगिनी पतति किञ्चित् घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्टं भिन्नम् इदं च अव्याप्य वृत्तित्ववृत्तित्वनिर्वाहकम् इति शास्त्रे प्रसिद्धं तथा च अग्रावच्छेदेन वृक्षे अग्रावच्छेदेन वृक्षे कपिः कपिसंयोगो वा वर्तते मूलावच्छेदेन वृक्षे कपेः अभावः कपिसंयोगाभावो वा वर्तते एवं च कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यस्य वृक्षे कपिसंयोगो वर्तते तद् अभावोऽपि वर्तते इत्यर्थः इति अर्थः तुल्ययुक्तया कपिसंयोगाभावस्यापि अव्याप्यवृत्तित्वं समर्थनीयम् अत्र घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नम् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं मूलाग्र मूल अग्रभागे यद् अवच्छेदकं मूलम् अवच्छेदकम् अग्रम् अवच्छेदकम् इति यत् पतितं तद् अवच्छेदकं घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् भिन्नम् अस्ति इति अस्तु इति उक्तम् कथं भिन्नम् अस्ति इति इदम् इदं च अव्याप्यवृत्तित्वनिर्वाहकम् इति शास्त्रे प्रसिद्धम् अत्र इदम् इत्युक्ते यद् मूलाग्रनिष्ठम् अवच्छेदकत्वम् इति अस्ति तद् भिन्नम् अस्ति किमर्थं भिन्नम् एतत् अव्याप्यवृत्तित्व एवम् एतत् अव्याप्यवृत्तित्वम् इति निर्वाहकं हा वस्तुतः तत्र स्मरति वा अस्माकं करपत्रेपि तत्र अयं विषयाः तत्र सविस्तरं निरूपिताः इदानीं समयतया अवच्छेद्य अवच्छेदकभावः प्राकृष्टाः सः तु इदानीम् अत्र तु अवच्छेदकपदार्थः यद् प्रयुज्यते तत्तु तस्य अर्थः किञ्चित् भिन्नः इति तत्र विशेषं तस्य अर्थः शास्त्रे अव्याप्यवृत्तिनिर्वाहकम् अवच्छेदकम् इति अत्र उच्यते तथा च अग्रावच्छेदेन वृक्षे कपिः कपिसंयोगः वा वर्तते कपिः कपिसंयोगः वा वर्तते अग्रावच्छेदेन वृक्षे कपिः कपिसंयोगः वा वर्तते मूलावच्छेदेन वृक्षे कपेः अभावः कपिसंयोग अभावः वा वर्तते एवं च कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यस्य वृक्षे कपिसंयोगः वर्तते तद् अभावे अपि वर्तते इति अर्थः एवं च कपिसंयोगः एतदेव सम्पूर्णं पठितवन्तः इति मन्ये mm. आ, अग्रा, अग्र अग्र अग्रभागे कपिः नो चेत् कपिसंयोगः वर्तते इति अनन्तरं मूल मूलदेशे कपिसंयोग अभावः कपेः अभावः नो चेत् कपिसंयोगाभावः वर्तते इति कृत्वा कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति तस्य अर्थः किं वृक्षे कपिसंयोगः वर्तते अपि तद् अभावे अपि वर्तते इति एव अर्थः वृक्षे अव्याप्यवृत्तिः इति शब्द इति शब्दद्वयस्य अर्थः एव उल्लिखितं एवं पठितवान् कपिसंयोगः इति पठित पठितवन्तः समानमेव कपिसंयोग अभावस्य अपि अव्याप्यवृत्तित्वम् इति समर्थनीयम् इति स्वीकरणीयम् इति एव अन्तिमवाक्यस्य अत्र यथा वयं कपिसंयोगस्य अव्याप्यवृत्तित्वम् इति स्वीकृतवन्तः समानमेव कपिसंयोग अभावस्य अपि अव्याप्यवृत्तित्वम् इति स्वीकरणीयम् इति एव तस्यापि अव्याप्यवृत्तित्वम् अग्रे वृक्षे कपि संयोगः इति वाक्ये अपि अग्रपदोत्तर अग्रपदोत्तरम्याः अवच्छेदकत्वमर्थः वृक्षपदोतरसप्तम्याः वृक्षपदोत्तरसप्तम्याः अधिकरण अधिकरणत्वमर्थः तथा च अग्र अवच्छिन्नवृक्षनिष्ठ अधिकरणतानिरूपित आधेयताश्रयः कपि संयोगः इति प्रतीयते मूले वृक्षे कपिसंयोग अभावः इति वाक्यादपि मूलावच्छिन्नवृक्षनिष्ठ अधिकरणतानिरूपित आदेयताश्रयः कपिसंयोग अभावः इति बोधो भवति एवञ्च सर्वजनसिद्धम् यत् अव्याप्यवृत्तित्वम् तेन एव चित्ररूपस्थलेऽपि निर्वाहः शक्यः कर्तुम् एक पिछेदे लिखित अस्थि अग्रे अग्रे वृक्ष कपयोग अग्रपदोत्थ रहा कक्षा सप्तम किमपि न न सप्तमी सप्तमी विभाक्ति विभक्तिशेषुक्तायुक्ता अत एव नयायिक न्यायिका सर्वदा तत्र कश्चन कश्चन परिशीलनं तत्र प्रतिसप्तम्या अथवा सप्तमी वाक्यतेः कः वसतः अर्थः अग्रे वृक्षे कपि संयोग इति वाक्ये अपि अग्रपदो अग्रपदोद उत्तर अपि च तत्र ज्ञेयं ज्ञेयं यत् वसतः न्यायशास्त्रे तत्र पदं यत् सुप्तिनान्तं पदम् इति वैयाकरणैः उच्यते तर्हि वैयाकरणैः अग्रे इति एकं पदं वृक्षे इति अपि एकं पदं परन्तु तथा नैयायिकैः तथा नास्ति तत्र नैयायिकैः सप्तमी विभाक्तिः इति एकं पदं वर्तते अपि च अग्र यत् प्रातिपादिकं तदापि तदापि भिन्नं पदम् इति उच्यते तथैव अग्रपद उत्तर वस्तुतः व्याकरणदृष्ट्या तत्र अग्रप्रातिपादिक उत्तर तत्र स्यात् परन्तु न अन्यथा किञ्चित् पदसंज्ञां स्वीकुर्वन्ति सप्तमी उपयुज्य पदम् आया ऐ मीन् किमपि शब्दः आयाति तस्मात् पदम् इति ते वदन्ति वा अपि च भवतु तत्र तु तैः न तु केवलं नैः सर्वैः शास्त्रीयैः तत्र कश्चन शब्दबोधः क्रियते इदानिमिकं वाक्यं वर्तते अग्रे वृक्षे कति संयोगः संयोगः इदानीं तस्य वाक्यस्य परिशील्य व्याकृत्य नाम सूक्ष्मदृष्ट्या पश्यामः चेत् तस्य वाक्यस्य कः अर्थः कः अर्थः अनेन वाक्येन प्रतिपाद्यते इदानीम् एतत् अवगन्तुं तत्र सर्वस्मिन् वाक्ये यानि सन्ति तेषाम् अवयवानां तत्र प्रत्यवयवं कश्चन विशिष्टः पृथग्भूतः आर्थः अवधेयः अस्ति इदानीम् इदानीं तत्र न्यायशास्त्रीय तत्र कति पदाः क कति पदानि सन्ति इति चेत् तर्हि अग्रा इति एकं सप्तमी विभाक्तिः इति द्वितीयं इति द्वितीयम् सप्तमीविभाक्तिः चतुर्थं कपि संयोग इति पञ्चमम् अपि च सुनाम प्रथमा प्रथमा विभाक्तिः तत्र अन्यत् पदम् अस्ति अथवा कपिसंयोगः इति प्रापि यत् समासत्वात् कतिपदद्वयं क्रियते न वा तत्रापि मतभेदः अस्ति ओके इदानीं सः किं वक्तुम् इच्छति तत्र अग्रे च वृक्षे च उभयत्र सप्तमीविभक्तिः श्रूयते श्रूयते परन्तु यद्यपि सप्तमीविभक्तिः उभयत्रा अस्ति तयोः द्वयोः सप्तमीविभक्त्योः अर्थः तु भिन्नः वृक्षे अथवा वृक्षपदोत्तरम् वृक्षपदोत्तरा या सप्तमी वृक्षपदोत्तरी या सप्तमी तस्य अर्थः अधिकरणं यथा भूतले देवदात्तः प्रकोष्ठे आन्ध्रे महोदय तत्र सर्वत्र सप्तमी विभाक्तिः अधिकारणं प्रतिपादयति परन्तु अत्र अग्रे यत् तत्रा सप्तमी भक्तिः वर्तते तस्य अर्थः नयायिकैः भिन्न भिन्नतया स्वीकृतः तस्य अवच्छेदकम् अथवा अवच्छेदकत्वम् इदानीं तर्हि अनेन सम्पूर्णस्य वाक्यस्य इदानीम् आर्थः प्रतिपादयितुं शक्यः इदानीम् अग्र अनन्तरम् अवच्छेदक अनन्तरं वृक्ष अनन्तरम् अधिकारण अनन्तरं कति संयोगः इति पदानि स्वीक्रियन्ते तर्हि सम्पूर्णवाक्यार्थः भवतु अग्रावच्छिन्न वृक्षनिष्ठ अधिकारणता निरूपित अधेया भवतु अथवा इदानीं दीर्घः अर्थः निरूपित अध्ययताश्च कपि संयोगः इति प्रतीयते पूर्वस्मिन् परिचयत्र पत्रे एव वयं दृष्टवन्तः खलु कथम् अग्रे अग्रदेश <coughs> अग्रग्रभागदेश वृक्षस्य <coughs> अग्रभागे कपिः अस्ति मूलभागे कप्यप अभावः अस्ति तदेव वा दीर्घवाक्ये उल्लिखितं तत्र अग्र अवच्छिन्नवृक्षनिष्ट आदेय अधिकर्णतानिरूपित आदे आदेयता आशय आदे, आदे कपिसंयोगः इति प्रतीयते मूलवृक्षे मूले वृक्षे कपिसंयोग अभावः इति वाक्यादिभिः वाक्यात् वाक्यादपि वाक्याद मूल अवच्छिन्न वृक्षनिष्ठ निरूपित आदेयता आश्रयः कपिसंयोग अभावः इति बोधः भवति एवं च सर्वजनसिद्धं यत् अव्याप्यवृत्तित्वं तेन एव चित्ररूपस्थले अपि निर्वाहः शक्यः कर्तुं कथम् एकस्मिन् स्थले एव एकस्मिन् वृक्षे एव कपिसंयोगभावः अस्ति कपिसंयोग अभावः अस्ति इति इति वाक्ये वक्तुं शक्नुमः वस्तुतः सः किं वदति इदानीम् एतद् वाक्यं तु लोके श्रूयते अग्रे वृक्षे कति संयोगः अग्रे वृक्षे कतिः अस्ति इदानीं सः प्रदर्शयति एतत् लौकिकं वाक्यं ीयमपि अर्थं बोधयति शास्त्रीयः अर्थः इति कः तत्र अग्राव भगिनी अवगच्छति वा आम् अवगच्छामि सम्यक् सम्यक् सम्यक् सम्यक् सम्यक् सम्यक् समीचीनं तर्हि एतत् इदानीं सम्पूर्णम् अस्माभिः दृष्टं अत एव आगतात् पातात् नूतनम् एव तत्र गच्छामः परन्तु इदानीं तत्र समस्या अस्ति asudha agamini saptaahi nani masma bhiki chuma summer break kartavya muti manesiat saptaahi ham tatra yatraay mchem na vatra gachami kutrachet hatava atayva maybe okay i will reach in may be we can meet maybe we can skip 3 weeks 2916 and then we can start maybe on 23 uh and then also maybe from september we may be have to change for thursday if this works for everybody okay i will write once again in the chat so we can discuss the details ha uh, mm -hmm. mahoday so. bawan yadi uh, kinchit